गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायम् तन् गरुड उवाच सपिण्डीकरणजाते आदिकेजस्वकर्मः देवत्वं वा मनुष्यत्वं पक्षित्वं वाप्नुयुर्नराः तेषां विभिन्नाहाराणां श्राद्धं वैरृत्तिदं कथम् यदप्यन्यायैर्द्विजाैर्भुक्तम् हूयते यदि वानरे शुभाशुभात्मकायः प्रेदत्तम् भुज्यते कथम् श्राद्धस्यावश्यकत्वन्तु अमावास्यादिशुश्रुतम् श्रीभगवानुवाच प्रेदानां शृणुपक्षीन्द्रयधां तु तृप्तिदम् देवो यदपि जातोऽयं मनुष्यकर्मयोगदः तस्यान्न मम तस्यान्न मम हृदम् भूत्वा देवत्वेऽप्यनुयादि च गन्धर्व्ये भोगरूपेण पशुत्वे च तृणं भवेद श्राद्धं हि वायुरूपेण नागत्वेऽप्यनुगच्छति फलं भवति राक्षसेशु तथा मिश्रं धनवत्त्वे तथा मांसम् प्रेतत्वे रुधिरं तथा मनुष्यत्वेन पानादिबाल्ये भोगरसो भवेद् गरुड उवाच कथं कव्यानि दत्तानि कव्यानि च जनैरिह गच्छन्ति पितृलोकं वा प्रापख कोऽत्र मृतानामपि जन्तूनां श्राद्धमाप्यायनं यदि निर्वाणस्य प्रदीपस्य तैलं संवर्धये चिखाम् मृताश्च पुरुषा स्वामिन् स्वकर्मजनिताम् गतिं गाहन्धके कथं स्वस्य सुतस्य श्रेय आप्नुयुः श्रीभगवानुवाच श्रुते प्रत्यक्षतस्तार्क्ष्य प्रामाण्यम् बलवत्सरम् श्रुत्या धुग् बोधितार्थस्य बीयोषत्वादिरूपदा नाम गोत्रम् पिदूरूणाम् वैप्रभगम् श्राद्धस्य मन्त्रास्तद्वत्तु प्रापकाश्चैव भक्तिदः अचेतनानि चैतानि प्रापयन्ति कदन्द्विधि सुपर्णा नावगन्तव्यं प्रापगम् वच्मि ते परम् अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः काले न्यायागतम् पात्रे विधिना प्रतिपादितम् अन्नं नयन्ति तत्रैते जन्तुर्यत्रावतिष्ठते नामगोत्रं च मन्त्राश्च दत्तमन्नं नयन्दिदे अभियोनिषदम् प्राप्तां तां तृप्तिरुपतिष्ठति तेषां लोकान्तरस्थानम् विविधैर्नामगोत्रकैः अपसव्यम् क्षितौ दर्भे दत्ता पिण्डास्त्रयस्तु वै यान्दितां तर्पयन्त्येवम् प्रेतस्तानस्तिदान् विदृन् अप्राप्त या दनास्ताना श्रेष्ठा ये भुवि पञ्चधा नानारूपास्तु जाता ये तिर्यद्योन्यादि जादिषु यदाहारा भवन्त्येपिधरो यत्र योनिषु तासु तद्धान्नं न यदे विप्रजन्तुर्यत्रा वसिष्ठदे पितरश्राद्धमोक्तारो विश्वेर्देवैः सदा सह ये ते सदा भुक्त्वा पितॄन् सन्तर्पयन्त्यदः वसुरुद्रादिसूदात् पितरश्राद्धदेवताः प्रेणयादे मनुष्याणां पितॄन् श्राद्धेषु तर्पिताः आत्मानं गुर्भिणी गर्भमभिप्रीणादिवैयदा दोहदेन तथा देवा श्राद्धये स्वांश्च पितृनृणां पृश्यन्ति पितरश्रुत्वा श्राद्धकालमुपस्थितम् अन्योन्यं मनसा ध्यात्वा सम्पतन्ति मनोजवं ब्राह्मणैः सह चाश्नन्ति पितरो ह्यन्तरिक्षगाः वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्दिभराम् गदिम् निमन्त्रितास्तु ये विप्रा श्राद्धपूर्वदिने कदा प्रविश्य पितरस्तेषु भुक्विया यान्धिस्वमालयम् श्राद्धकर्त्रादु यद्येकश्राद्धे विप्रो निमन्त्रितः उतरस्तपिता तस्य वामपार्श्वे पितामहः प्रपिदामहो दक्षिणदपृष्ठदपिण्डभक्षकः श्राद्धकाले यमप्रदान् पितॄंश्चापि यमालयाद विसर्जयति मानुष्यनिरयस्तांश्च पश्यप क्षुतार्था कीर्तयन्तश्च दुष्कृतम् च स्वयम् कृतम् काङ्क्षन्ति पुत्रपौत्रेभ्यः पायसम् मधुसंयुधम् तस्मा तांस्तत्र विधिना तर्पयेत् पायसेन गरुड उवाच स्वामिन् केनापि ते दृष्टा आकदापितरो द्विजा लोकादमुष्मदा गत्य भुञ्जन्तो भुविमानद श्रीभगवानुवाच गुरुत्मशृणु वक्ष्यामि यथा दृष्टास्तु सीधया पितरो विप्रदेहे वै श्वशुराद्यास्त्रय क्वजिद गृहीत्वा पितुराज्ञाम् वै रामो वनमुपागमद तदपुष्करयात्रार्थम् रामो यासीदया सह तीर्थम् चाभिसमागत्य श्राद्धम् प्रारब्धवांस्तु सः बलम् भक्वन्तु सुस्नादा नमपालयद न भो मध्यगदे सूर्यकाले कुतुप आगदे आयादर्षय सर्वे ये रामेण निमन्त्रिताः तान् मुनी न कदान् दृष्ट्वा वैदेहीजनकात्मका रामाज्ञयान्नमादाय परिवेष्टुमुपागदा अपा सर्पस्तदो दूरे विप्रमध्ये दुः दू संस्थिता गुल्मैराचाद्यचात्मानं निगूढं सा स्थिता तदा एकान्ते तु तदा सीतां ज्ञात्वा राघवनं पुनः विमृश्य सुचिरं कालमितिं किमिति सत्वरं किञ्चित् क्वचिद्गदा साध्वी त्रपाया कारणेन हि किं वानभो जयन् विप्रान् सीतामन्वेषयम्यहम् विमृश्यन्नेवमेवं स स्वयम् विप्रानभो जयद गदेषु द्विजमुखेषु प्रियाम् रामोऽब्रवीदिदम् कथं दृष्ट्वा समागतान् तत्सर्वम् मम तन्वङ्गिकारणं वदमाचिरम् एवमुक्ता तदा सीदा साधो मुखी स्थिदा नुञ्चन्दी चाश्रु सङ्खादम् राघवम् वाक्यमब्रवीद सीतो वाच चान्यौ च दृष्ट्वा त्वत्पितरम् मापक्रान्ता तवान्ति कादं वल्कलाजिनसंविदा कथं राज्ञ भवामि रिपुवीरघ्नसत्यमेदुःखाहृदम् स्वहस्तेन कथं देयं राज्ञे वा भोजनं मया दासानामपि ये दासा, दासा नोपभुञ्जधिकर्हिजिदृणपात्रे कथं तस्मै अन्नं दादुं चक्रुयाम् याहम् राज्ञा पुरा दृष्ट्वा सर्वाभरणभूषिता सा स्वेदमल दिग्धाङ्गी कथम् यास्यामि भूपतिम् अपकृष्टास्मि तेनेकम् कृपया रामो विस्मितमानसः आश्चर्यमिति तज्ज्ञात्वा तदा स्वस्थानमागमद सीदयापितरो दृष्ट्वा यथा तत्ते निवेदितम् अपरम् श्राद्धमाहात्म्यम् किञ्चिच्छृणु समासदः अमावस्यादिने प्राप्ते गृहद्वारे समास्थिताः वायुभूता प्रवञ्चन्ति श्राद्धम् पितृगणा नृणम् यावदस्तमयम् भानोः क्षुत्पिपासा समाकुलाः ततश्चास्तम् गदे सूर्ये निराशा दुःखसंयुता निःश्वसन्तश्चिरम् यान्दि गर्हयन्तस्तु वंशजम् तस्माच्छ्राद्धम् प्रयत्नेन अमायां कर्तुमर्हति यदि श्राद्धम् पुत्राद्यास्तस्य बान्धवाः उद्धृता ये गया श्राद्धे ब्रह्मलोकञ्चतैः सह भजन्दे क्षुत्पिपासा वा न तेषां जायते क्वचिद श्राद्धं प्रयत्नेन सम्य शाकैरपि यथा विधि सुर्वीदसमये श्राद्धं कुले कश्चिन्नसीदधि आयुपुत्रान्यस्य कीर्तिं पुष्टिं बलं श्रियम् पशून् सौख्यं धनं धान्यं प्राप्नुयात् पितृपूजनाद् देवकार्यादपि सदा पितृकार्यं विशिष्यते दे। हि पूर्वमाप्यायनं शुभम् ये यजन्ति पितृन्देवान् ब्राह्मणांश्च उदाशनं सर्वभूतान्तरात्मानं मामेव हि यजन्ति मे यजन्ति ते स्मार्देन विधिना श्राद्धं कृत्वा स्वविभवोजितम् आ ब्राह्मणस्तम्भपर्यन्तं जगत्प्रीणादिमानवः अन्नप्रकिरणं यत्तु मनुष्यै क्रियते भुवि तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः यच्छाम्बुस्नानवस्तेभ्यो भूमौ पतति खेचर तेन ये तरुताम् प्राप्तास्तेषाम् तृप्तिप्रजायते यानि गन्धाम्बूनि चैव पतन्ति धरणीतले तेन चाप्यायनन् तेषाम् ये, ये देवत्वमुपागताः ये चावुला क्रिया योग्याख्य संस्कृता विपन्नाते विगिजनजलाशिन भुक्त चाचमनमं यच्च जलं तथै वन्य तृप्ति प्रया वै पिशाच तमनुप्रप्ता कृमिकमे ये उद्धृतेष्वन्नपिण्डेषु भुवि ये चान्नकाङ्क्षिणः तैरे वाप्यायनम् तेषाम् ये मनुष्यत्वमागताः वैक्रियमानानां वै क्रियमाणानाम् तेषाम् चैव द्विजन्मनाम् कश्चिञ्जलान्न विक्षेपशुचिरुच्छिष्ट एव वा तेनान्नेन कुले भवत्याप्यजनम् तेषाम् सम्यक् श्राद्धे कृते सदि अन्यायोपार्जितैर्द्रव्याैर्यद्धम् क्रियते न रैः तकृप्यन्दितेन चण्डाला पुकः साद्युपयोनिषु एवम् सम्प्राप्यते पक्षिण्यद्दत्तमिह बान्धवैः श्राद्धम् कुर्वद्भिरन्ना मुष्याकैस्तोक्तिर्खि जायते यदत्ते सर्वमाख्यातम् यन्माम् त्वम् परिपृच्छसि सद्यो देहान्तरप्राप्तिर्विलम्बेना वनी कले पृष्टवानसि तत्ते सम्प्रवक्ष्यामि समासदः सद्यो विलम्ब तञ्जैव वोभयथापि कलेवरम् यतोहिमर्त्य प्राप्नोति तद्विशेष्यञ्च अधूमकज्यो दिरिवाङ्गुष्टमात्र पुमांस्तदः देहमेकम् सद्य एव वा वायवीयम् प्रपद्यते यथा नृणजलौ काहि पश्चात्पादम् तदोद्धरेद स्थितिरग्र्यस्य पादस्य यदा जादा दृढा भवेद देहि पूर्वदेहम् समुत्सृजदितम् यदा भोगार्थमग्रे स्याद्देहो वायवीय उपस्थितः विषयग्राहकम् यद्वन्म्रियमाणस्य चेन्द्रियम् निर्व्यापारम् तच्च देहे वायुनैव स गच्छति शरीरम् यदवाप्नोति तच्चाप्युत्क्वाम्यति स्वयम् गृहीत्वा संविनिर्याति जीवो गर्भ इवाशयाद उत्क्रामन्तं स्थितं वा विभुञ्जानं विमूढानानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः आदिवाहितमित्येवं वायवीयं वदन्तिः एवं तु यादुधानानां तमेवज वदन्तिः सुवर्णयीदृशो देहो नृणां भवति पिण्डजः पुत्राधिभिकृताश्चेत् स्युपिण्डादशदशाकिकाः पिण्डजेन तु देहेन वायुज्यश्चैकदां व्रजेत् पिण्डजो यदिनैव स्याद्वायुजोर्हदि यादनां देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः पक्षीन्द्रेत्यवधारय पसांसि जीर्णानि यथा विहाय नवानि गृह्णादि नरोपराणि तथा शरीराणि विहाय जीर्णान्यनि नवानि देहि नैनं चिन्तन्ति शस्त्राणि नैनं दहदि भावकः न चैनं क्ले दहन्त्यापो न शोषयति मारुदः वाह्यवीयान्तनुं यादि सद्य इत्युक्तमेव ते प्राप्तिर्विलम्बतो यस्य तं देहं खलु मे शृणु क्वचित् विलम्बतो पिण्डजं स समाप्नुयाद अथोगतो यम्यलोकम् स्वीय कर्मानुसारदः चित्रगुप्तस्य वाक्येन निरयाणि भुनकृतः यातना समवाप्याद पशुपक्ष्यादिकीं तनुम् या गृह्णादि नरः सा स्यान् मोहेन ममतास्पदम् शुभाशुभं कर्मफलं भुक्तुवा मुच्यते मानवः गरुड उवाच तीर्त्वा दुःख भवाम् बोधिम् भवन्तम् युक्तोपि तद्वदस्व दयानिधे भूयो दुःखस्य संसर्गो नरस्य न भवेद्यथा ब्रूहि शुश्रूषमाणस्य पृच्छदो मे रमापदे श्रीकृष्ण उवाच स्वे स्वे कर्मण्यभिरधः लभते नरः स्वकर्मनिरदसिद्धिं यथा विन्दति तत् कर्म विभ्रष्टकालुष्यो वासुदेवानुचिन्तया बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च शब्दादीन्विषयां त्यक्त्वा रागद्वेषौ व्युदस्य च वीरकृतसेवी लब्ध्वाशी यत वा कायमानसः ध्यानयोगपरो नित्यं वैराग्यम् समुपाश्रितः अहंकारं बलं दर्पं कामं क्रोधं परिग्रहं विमुच्यं निर्ममशान्तो ब्रह्म भूयाय कल्पदे अधपरं नृणां कृत्यं नास्ति कश्यपनन्दना यदि श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयधर्मकृ प्रेतकल्पे श्रीकृष्णगरुडसंवादे श्राद्धस्य तृप्तिदत्त्वादिरूपणं नाम दशमोऽध्यायः ओम्